महामाये श्रीपीठे सुरपूजिते शङ्खचक्रगदाहस्ते महालक्ष्मी नमोऽस्तु ते नमस्ते गरुडारु लक्ष्मी नमोस्तुते ते सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करी सर्वदुःखहरे देवी लक्ष्मी नमोस्तु ते सिद्धिबुद्धिप्रदेविमुक्तिप्रदायिनी मन्त्रमूर्ते सदा देवी महालक्ष्मी नमोस्तु ते हिते दे देवी आज्यशक्ति महेश्वरी योगजे योगसम्भूते महालक्ष्मी नमोस्तु ते महा महाशक्ति महाशक्तिमहो दे देवी परब्रह्मस्वरूपिणी परमेशी जगन्मात् महालक्ष्मी नमोऽस्तु ते लक्ष्मी नमोऽस्तु ते महालक्ष्मष्टकं स्तोत्रम् यः पठेद्भक्तिमान् नर सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा एककालं पठेन्नित्यम् महापापविनाशनम् द्विकालं यः पठेन्नित्यम् धनधान्यसमन्वित त्रिकालं यः पठेन्नित्यम् महाशत्रुविनाशनम् महालक्ष्मीर्भवेन् नित्यम् प्रसन्नवरदाशुभा